श्रीहरये नमः अथ पञ्चचत्वारिंशोऽध्यायः श्रीसुक उवाच पितरौ उपलब्धार्दौ विदित्वा पुरुषोत्तमः मा भूति निजा मायां तदा न जनमोहिनी उवाच पितरा वेत्यसाग्रजः सात्वतर्षभः प्रश्रया नास्मत्तो युवयोस्तात बाल्यपौकण्टकैशोरा पुत्राभ्यामभवन् क्वचित् न लब्धोतैव कथयोर्वासो नो भवधन्ति के याम्बाला पितृगेहस्ता विन्दन्ते लालितामुदं देहो जनितः यतः न तयो निर्वेशं पित्रोर् मर्त्यस्सतायुषा यस्तयोरात्मझ कल्प आत्मना च धनेन च वृत्तिं न दध्यातं प्रत्य स्वमां मातरं पितरं वृद्धं भार्यां साध्वीं सुतं शिशुं गुरुं विप्रं प्रपन्तं च कल्पो बिभ्रश्वसन्मृतः तन्नावकल्पयोःखं सात् नित्यम् उद्विग्नचेतसोः मोघमेतव्यतिक्रान्ता दिवसा तच्छङ्क्तुं नर्हतस्तातमातर्नो परतन्त्रयोः अकुर्वतोर्वां शुश्रोक्षां क्लिष्टयो दुर्हृदा भृशम् इति मायामनुष्यस्य हरेर्विश्वात्मनो गिरं मोहितावङ्कमारोप्य सिञ्चन्तौ अश्रुधारपि स्नेहपासेन चावृतौ न किञ्चिदूचतु राजन् बाष्पकण्ठौ विमोहितौ एवं मा स्वस्य पितरौ भगवान् देवकीसुतः मातामहं दुग्रशेन यधूना मकोरानृपम् आगच्छस्मान् महाराजः प्रजाश्चाज्ञ त्वमर्हसि ययातिशापाद्युभैर्नासीत्तव्यं या नृपासने मयि भृत्य उपासीने भवतो विबुधाधयः बलिं करत्यवनतां नराधिपाः सर्वान् स्वान् ज्ञाति यथोवृण्यन्दगमधोदासार्घकुकुरादिकान् सभाजितान् समाश्वास्य विदेशावासकर्षितान्यवासयत्स्वगेषु शोभित्यै सन्तर्प्य विश्वकृत कृष्णसङ्कर्षणभुजैर्गुप्ता लब्धमनोरथाः गृहेषु रेमि रेसिद्धा कृष्णरामगदज्वरः वीक्षन्तो हरः प्रीता मुकुन्दवताम्बुजं नित्यं प्रमुदितं श्रीमत्सतयस्मितवीक्षणं तत्र प्रवयसोऽप्युभानोति भलौजसः बिभन्तो क्षैर्मुकुन्दस्य मुगाम्बुजसुताम्बुकुः अतनन्तं समासाध्य भगवान् देवकी सुतः सङ्कर्षणश्च राजेन्द्र फरिष्वज्जेदमुचतुः पितर्युवाभ्यां स्निग्धाभ्यां पोषितौ लालितौ वृषम् पित्रोरव्यतिका प्रेते आत्मजेष्वात्मनोऽपि हे स पिता सा च स्वपुत्रव पुष्णीतां स्वपुत्रव शिशून् कल्पै न कल्पैपोषरक्षणे यातयूयं व्रजं तात वयं च स्नेघुःखितान् ज्ञातीन्वो द्रष्टुमेष्यामो विधाय सुहृधां सुखं एवं सान्त्वय्य भगवान्नन्दं सौव्रजमश्च्युतः वासो सोलकारकुप्याध्यमसादरुक्तस्थ परिष्वजन प्रणय विह्वल पूरय नश्रुभर्ने खोपैज यत सूरसुथो पुत्रयो सकार पुरा दशा ब्राह्मणैश्च या तव द्विज मालास्वलङ्कृताः स्वलङ्कृतेभ्य सम्पूज्य समस्ताक्षौ म मालिनी हे या कृष्णरामजन्मर्षे मनो धत्ता महामतिः तनुस्मृत्य कंसेनाधर्मतो हृताः ततश्च गर्गाद्यत् कुलाश्चर्यात् गायत्रम् व्रतमास्तितौ सर्वविद्यानां सर्वज्ञौ जगदीश्वरौ नान्यसिद्धामलज्ञानं गुहमानौ न अतो गुरुकुले वा संयिच्छन्तौ उप जग्मतुः काशं शान्दीपनिं नाम ह्यवन्ती पुरवासिनं यतोपसाध्यतौ धान्तौ गुरौ वृत्तिम् अनिन्दिता ग्राहयन्तावुपेतौ स्म भक्त्या देवमिवादृतौ तयोर्द्विजवरस्तुष्टः शुद्ध भाव अनुवृत्तिभिः प्रवाचा वेधा न किलान् शाङ्कोपनिषदो गुरुः सरहस्यम् धनुर्वेतम् धर्मा न्यायपथांस्तथा तथा चान्वीक्षिकीं विद्यां राजनीतिं च षड्विधां सर्वं नरवरश्रेष्ठौ सर्वविद्या प्रवर्तकौ तौ सं जग्रुहतुर्नृपान् संयत्तौ तावती गुरुदक्षिणयाचार्यं चन्दयामासतुर् द्विजस्तयोस्तं महिमानमद्भुतं संलक्ष्य राजन्नदि सं प्रभासे वरयाम्बभूवः तथेत्यधारुह्यमकारथौ रथं प्रभासमासाद्य धुरन्तविक्रम विदित्वार्हणम् आहर तयोः तमागभगवानाशु गुरुपुत्र प्रदीयत योऽसा विह त्वया ग्रस्थो नैवाकार्षमखं देव दैत्यः पञ्चय नो महान् प्रभुः जलमाविश्यतं तदङ्गप्रभवं शङ्गमाधाय रतमागमात् यमस्य दयितां पुरे गत्वा जनार्दनः शङ्कं प्रधत्मौ सहलायुतः सङ्गनिर्ह्रादमाकर्ण्य प्रजा संयमनो यमः तयो सर्प्यामहतीं च भत्युभप्रंहिताम् उवाचावनत कृष्णं सर्वभूता लीलामनुष्य हे विष्णो युवयोः करवाम किं श्रीभगवानुवाच गुरुपुत्रमिहानितं निजकर्म निबन्धनम् मच्चास न पुरस्कृतः उपानीतं गुरुपुत्रं यधूत्तमो दत्वा स्वगुरवे भूय वृष्णीष्वेति तमूचतुः गुरुरुवाच सम्यक् सम्भातितो वत्स भवद्भ्यां गुरुनिष्क्रयः को नु स्व गृहम् वीरौ कीर्तिर्वामस्तु पावनी चन्तांशयातया माने भवन्त्विकपरत्र च गुरुणैवम् अनुज्ञातौ रतेनानिलरह्मसा आयातौ स तात पर्जन्यनिनदेन वै समनन्दन् प्रजाः दृष्ट्वा रामजनार्दनौ अपश्यन्त्यो भक्वहानि नष्टलब्धधना इव इति श्रीमद्भगवते महापुराणे दशमस्तन्ते पूर्वार्थे गुरुपुत्रा नयनं नाम पञ्चचत्वारिंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथ महाराज की जय